श्रीहरये नमः अथ पञ्चचाशीशीतितमोऽध्यायः श्रीपादरायणिरुवाच अतै गतात्मजौ प्राप्तौ कृतपादाभिवन्दनौ वसुदेवो विनन्द्याः प्रीत्या सङ्कर्षणाच्युतौ मुनीनां स वचः श्रुत्वा पुत्रयोर्धामसूचकं तद्वीर्ये जातविश्रम्भ परिपाश्याभ्यभाषता कृष्णकृष्णमहायोगिन् सङ्कर्षणसनातन जाने वामस्य यत्साक्षात् प्रधानपुरुषौ परौ यत्र येन यतो यस्य यस्मै यत्यत्यथा यथा स्यादितं भगवान् साक्षात् प्रधानपुरुषेश्वरः एतन्नानावितं विश्वम् आत्मसृष्टमदोषज आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्षजः प्राणादीनां विश्वसृजा शक्तयो याः परस्यतः परातन्त्र्या त्वयि सादृश्याद् द्वयोश्चेष्टैव चेष्टताम् कान्तिस्तेजप्रभा सत्तात् यत्स्थैर्यं भूप्रतां भूमेर्वृत्तिर्गान्तोर्थतो भवान् तर्पणं प्राणनमभां देवत्वं ताश्च तदृशः ओजः सखो बलं चेष्टा गतिर्वायोस्तवेश्वर दिशान्त्वमवकाशोऽषि दिश आश्रयः नाथो वर्णस्त्वमोङ्कार आकृतिना पृथकृतिः इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रहः अवबोतो भवान् बुद्धेर्जीवस्यानुस्मृतिस्सती भूतानामसि भूताधेर् इन्द्रियाणां सतैजसः वैकारिको विकल्पानां प्रधानमनुसायिल् न स्वरेष्विकभावेषु कथसि त्वमनस्वरं यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितं सत्त्वं रजस्तमयिति गुणास्तद्वृत्तयश्च याः त्वय्यद्धा ब्रह्मणि परे कल्पिता यो गमायया तस्मान्न सन्त्यमी भाभा यर्हि त्वयि विकल्पिताः तस्मिन् अभुतास्त्वखिलात्मनः गतिं सूक्ष्मामभो तेन संसरन्तीह कर्मभिः यदृश्चयान्रतां प्राप्य सुकल्पामिह दुर्लभां स्वार्थे प्रमत्तस्य वयो गतं त्वन् माययेश्वर असवकं ममैवैते देहे स्नेहपासे निबध्नाति भवान् सर्वमिदं जगत् युवां नः सुतौ साक्षात् प्रधानपुरुषेश्वरौ भोपा रक्षपण अवतीर्णौ दधातः तत्ते गदौ स्मरणमद्यपदारविन्दम् आपन्नसंश्रुतिभयापहमार्तबन्धो एतावतालम् अलमिन्द्रियलालसेन मर्त्यात्मधृत्वयि परे यदभद्य बुद्धिः सुधीकृहे ननु जघात भवान् जूनो संजज्ञ इत्यनुयुगं निजधर्मगुप्त्यै नानातनोर्गगनवद्विदध्जगासे कोवे तभोम्नपुरुगाय विभूतिमाया श्रीशुक उवाच आखन्येतुं पितुर्वाक्यं भगवान् सात्त्वदर्शभः प्रत्यागप्रश्रया नम्र प्रहसंस्लक्षणया किरा श्रीभगवानुवाच वचो वः समवेदार्थं तातैतत् उपमन्महे यन्नः पुत्रान् समुद्दिश्य तत् वग्रामबुधाहृतः अहं यूयमसाभार्यम् इमे चद्वारकौकशः सर्वेप्येवं यदुश्रेष्ठं विम्रश्यासचराचरम् आत्मा तत्कृतेषु भूतेषु बहुधेयते कं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम् नानात्वं यात्यसावपि श्रीशुक उवाच एवं भगवता श्रुत्वा विनष्टा नानादि स्तूणीं प्रीतमना अभूत् अत तत्र कुरु श्रेष्ठ देवकी सर्वदेवता श्रुत्वा नीतं गुरो पुत्रम् आत्मजाभ्यां सुविस्मिता कृष्णारामौ समाश्राव्य पुत्रान् कंसविहिंसितान् स्मरन्ति कृपणं प्राह वैक्लव्यादश्रुच् लोचन्हा देवक्युवाच राम राम अप्रमेयात्मन् कृष्णयोगेश्वरेश्वर वेदाहं वां विश्वसृजाम् ईश्वराभातिपूरुषौ कालविध्वस्तसत्त्वानां राज्ञामुच्छास्त्रवर्तिनां भूमेर्भारायमाणानाम् अवतीर्णौ किलाध्य मे यस्यां सां सां सभागेन विश्वोत्पत्तिलयो दयाः भवन्ति किल विश्वात्मन् त्वं द्वाख्याहं गतिं गता चिरान्मृतसुधाधेन गुरुणा कालचोदितौ आनिन्द्यतुः गुरवे गुरुदक्षिणां तथा कुरुतं कामं युवां योगेश्वरेश्वरौ भोजराजः कामये द्रष्टुमाहृतान् एवं संशोधितौ मात्रां रामकृष्णश्च भारत सुतलं संविशतोर्योगमायाम् उपाश्रितौ प्रविष्टावु प्रविष्टावुभ्य धैत्र्यराढ विश्वात्मदैवं सुतरां तथात्मनः तद्दर्शनाह्लादपरिलोब्धासय सत्यः समुत्थायन तयो समानीयवरासनं मुदा निविष्टयोस्तत्र महात्मनोस्तयोः ददार पादौ अवनिज्य तज्जलं स वृन्द आ ब्रह्म पुनद्यदम्बुः समर्हयामास सथ विभूदिभिर्मकार्गवस्त्राभरणानुलेपनैः ताम्बूलदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्मसमर्पणेन च स इन्द्रसेनो भगवत्पदाम्बुजं बिभ्रह्मुखप्रेम विभिन्नया धिया उवाच आनन्दजलाकुलेक्षण प्रहृष्टरोमान्रपगद्गदाक्षरं बलिरुवाच नमो नन्धाय बृहते नमः कृष्णाय वेधसे सांख्ययोगविधानाय ब्रह्मणे परमात्मने दर्शणं वाङ्कीभूतानां दुष्प्रापं चाप्य दुर्लभं रजस्तमस्वभावानां यन्नः प्राप्तौ यद्दृश्यया दैत्यदानवगन्धर्वां सिद्धविद्यात्रचारणाः यक्षरक्षप्पिशाच्च भूतप्रमतनायकाः विशुद्धसत्त्वधाम्यद्धा त्वयि शास्त्रशरीरिणि नित्यं निभत्तवैरास्ते वयं चान्ये च दादृशाः केचनोद्भत्तवैरेण भक्त्या केचन कामतः न तथा सत्त्वसम्भृद्धा सन्निकृष्टासुरादयः इदमित्तमितिः प्रियास्तव योगमायाम् न विदन्त्यभि योगेशा योगमायां तन्न प्रसीत निरपेश विमृक्य युष्म धवृत्तिः शान्तो यतैकवुत सर्वसहैश्चरामि साध्यस्मान् ईसितव्ये स निष्पान् कुरु नः प्रभो पुमान् यच्छरद्धया आतिष्ठं विमुच्यते श्रीभगवानुवाच आसन्मरीचे षट्पुत्र पूर्णायां प्रथमेऽन्तरे देवाखं जघसोर्वीक्ष्य सुतां यभिदुमुद्यतं तेनासुरीमघन्योनिं अधुना वध्यकर्मणां हिरण्यकशिपोर्जाता नीतास्ते योगमायया देवज्ञातरे जाता राजन् कंसविहिंसिताः सा धान् शोचत्यात्मजान् त्वां स्तयित ध्यासतेन्दिकेम् इत एतान् प्रणेष्यामो मातृशोकापनुत्तये ततः शापात् विनिर्मुक्ता लोकं यास्यन्ति विज्वराः मरोद्गीतपरिष्वङ्गदङ्गक्षुद्रभृतघृणी षटिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् इत्युक्त्वा तान् समाधाय पूजितौ पुनर्द्वारवतीमेत्यं मातुः पुत्रा न यच्छतां तां दृष्ट्वा बालकान् देवी पुत्रस्नेकस्नुतस्तनी परिष्वज्याङ्कमारोप्य मूर्ज्ञ्रतभीक्ष्णसहा अपाय यत्स्तनं प्रीता सुतस्पर्श परिप्लुता मोहिता मायया विष्णोर्यया सृष्टिप्रवर्तते पीत्वा मृतं पयस्तस्याः पीतशेषं गताभृतः नारायणाङ्गसंस्पर्श प्रतिलब्धात्मदर्शनाः ते समस्कृत्य गोविन्दं देवकीं पितरं बलम् विषदां सर्वभूतानां ययोर्धामदिवौकशां तं दृष्ट्वा देवकी देवी मृदागमननिर्गमं मेने सुविस्मिता मायां कृष्णस्य रचितां नृप एवं विधान्यद्भुतानि कृष्णस्य परमात्मनः वीर्याण्यनन्दवीर्यस्य सन्त्यनन्थानि भारता सूत उवाच ययितं मनुशृणोति श्रावयेद्वामुरारेः चरितम् अमृतकीर्तेर्वर्णितं व्यासपुत्रैः जगदगबितलं तद्भक्तसत्कर्णपूरं भगवति कृतचित्तो यादि तत्क्षेमधाम इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्ते मृदाग्रजानयनं नाम पञ्चाशीतितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द